भतो रात्रौ प्राप्नुवन्तो जलं ब्रह्मविदो जनाः गार्हयन्ति नरान् सर्वान् बलस्थानृपतीनपि भारातिष्ठतमा मह्यं समीपमपसर्पत कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् अङ्गारपर्णं गन्धर्वं वित्तमां स्वबलाश्रयम् अहं हिमानीचेर्षुश्च कुबेरश्च प्रियः सखा अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम हनुगङ्गं चरन् कामांश्चित्रं यत्र रमाम्यहं न कौणपाशृङ्गिणो वा न मानुषाः इदं समुपसर्पन्ति तत्किं समनुसर्पथ अर्जुन उवाच समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते रात्रावहनिसन्ध्यायां कस्य गुप्तः परिग्रह। भुक्तो वाप्यथवा भुक्तो वहनि खेचर नकालनियमो कालनियमो ह्यस्तिगङ्गां प्राप्य सरिद्वरां वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम मानवाः पुरा हिमवतश्चैषा हेमशृङ्गादिनिःसृता गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत गङ्गां चयमुनां चैव क्लक्षजातां सरस्वतीं रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा